कृष्णयजुर्वेदे क्रमपाठे चतुर्थकाण्डे षष्ठः प्रश्नः प्रारम्भः ऊर्जम् पर्वते वाते वाते पर्जन्ये पर्जन्ये वरुणस्य वरुणस्य शुष्मे शुष्म इति शुष्मे अर्भ्य ओषधीभ्यः वनस्पतिभ्यः ओषधीभ्यः इत्यौषधीभ्यः वनस्पतिभ्योऽधि वनस्पतिभ्य इति वनस्पतिभ्यः अधिसम्भृताम् सम्भृताम् ताम् संहृतामधिसंहृताम् तान्नः नैषम् इषमूर्जम् ऊर्जम् धत्र धत्र मरुतः मरुतः सगम्रराणाः सगम्रराणा इति सम्रराणाः कश्मगस्ते ते क्षुल् क्षुदमुम् मुन्द्रे ते षु सुगृच्छतु विष्म इति द्विष्मः समुद्रस्य त्वा त्वावाकया अवाकयाग्नेः अग्नेपरि परिव्ययामसि पियामसीति व्ययामसि पावको अस्मभ्यम् अस्मभ्यम् शिवः अस्मभ्यमित्यस्माभ्यम् अस्म शिवो भव भवेति भव हिमस्य त्वा त्वाजरायुणा जरायुणाग्नेः जरा अग्नेपरि परिव्ययामसि ययामसीति व्ययामसि पावको अस्मभ्यम् अस्मभ्यम् शिवः अस्मभ्यमित्यस्माभ्यम् शिवो भव भवेति भव उपज्वन् ज्वन्नुपपवेतसे एतसेऽवत्तरम् अवत्तरम् नदीषु नवत्तरमित्यवतरम् नदीष्व ए अग्ने पित्तम् पित्तमपाम् अपामसि असीत्यसि मण्डूकिताभिः ताभिरा आगहि जहि सा सेमम् इमन्नः नो यज्ञम् यज्ञमिति यज्ञम् पावकवर्णकम् शिवम् पावकवर्णमिति पावकावर्णम् शिवम् कृधि कृथीति कृधि पावका आचितयन्त्या चितयन्त्या कृपा कृपेति कृपा क्षामन् रुरुचेरुच उषसः उषसो न न भानुनाः भानुनेति भानुनाः कूर्वन् न यामन् यामन्येदशस्य एतशस्य नू, नूरणे रण आयः यो घृणे घृण इति घृणे न तदृषाणः अजरः अजर इत्यचरः अग्ने पावक पावकरोचिषाः रोचिषा मन्द्रयाः मन्द्रया देव देवजिह्वया जिह्वयेति जिह्वया आ देवान् देवार्वक्षि वक्षियक्षि यक्षि च चेति च सरः नः पावक पावकदीदिवः ये दिवोग्नेः अग्ने देवान् एवागुं देवा यह इहा आवह वहेदिवः उपयज्ञम् यज्ञकम् हविः हविश्च च नः अपामिदम् इदन्ययनम् ययनगुम् समुद्रस्य न्ययनमिति नियनम् समुद्रस्य निवेशनम् निवेशनमिति निवेशनम् मन्यन्ते ये ते अस्मत् अस्मत्तपन्तु तपन्तु पावको अस्मभ्यम् अस्मभ्यगम् शिवः अस्मभ्यमित्यस्माभ्यम् शिवो भव भवेदि भव नमस्ते हे हरसे हरसे शोचिषे शोचिषे नमः नमस्ते ते अस्तु अस्त्वर्चिषे अर्चिष इत्यर्चिषे अन्यन्ते ते अस्मत् अस्मत्तपन्तु तपन्तु हेदयः हेदयः पावकः पावको अस्मभ्यम् शिवः अस्मभ्यमित्यस्माभ्यम् शिवो भव भवेति भव नृषदेवट् दृषदैति दृशदे वडप्सुषदे अप्सुषदेवट् अप्सुषद इत्यप्सुसदे वड्वनसदे वनसदेवट् वनसदैरिमनासदेहे वट्बह्िषदेः वर्हिषदेवटे बर्हिषदैरि बर्हिषदेः वट्सुवर्विदेः सुवर्विदेवटे सुवर्विदैति सुबहाविदेहे वडितिबट् ये देवाः देवादेवानाम् देवा देवानाम् यज्ञयाः यज्ञिया यज्ञियानाम् यज्ञियानागम् संवत्सरिणम् नंग। संवत्सरेणमुप संवत्सरेणमिति संवत्सरिणम् उपभागम् भागमासते आसत इत्यासते अहुतादो हविषः अहुताद इत्यहुतादः यज्ञे अस्मिन् अस्मिन् स्वयम् स्वयञ्जुहृध्वम् जुहृध्वम् मधुनः मधुनो घृतस्य घृतस्येति घृतस्य ये देवाः देवादेवेषु देवेश्वरि अधिदेवत्वम् देवत्वमाजन् देवत्वमिति देवात्वम् आजनिये ये ब्रह्मणः ब्रह्मणः पुर अस्य पुर इति पुरः एतारः अस्येत्यस्य येभ्यो नर्ते ऋते पवते पवते धाम धाम किम् किञ्चन चनन न ते दिवः दिवो न न पृथिव्याः अभिस्नुषु स्नुषिभिस्नुषु प्राणदा अपानदाः प्राणदा इति प्राणादाः अपानदाव्यानदाः अपानदा इत्यपानादाः व्यानदाश्चक्षुर्दाः व्यानदा इति व्यानादाः चक्षुर्दावर्चोदाः चक्षुर्दा इति चक्षुरोदाः वर्चोदावरिबोधाः वर्चोदा इति वर्चहादाः वरिबोदा इति वलिवहादाः अन्यन्ते ते अस्मत् अस्मत्तपन्तु तपन्तु एतयः पावकः पावको अस्मभ्यम् अस्मभ्यगम् शिवः अस्मभ्यमित्यस्माभ्यम् शिवो भव भवेति भव अग्निस्तिग्मेन तिग्मेन शोचिषा शोचिषायगुंसत् यगुंसद्विश्वम् विश्वम् नेत्रिणम् अर्त्रिणमित्यत्रिणम् अग्निर्नः नोऽपगुंसते वपुंसते रयिम् रयिमिति रयिम् सयिना येनानीकेन अनीकेन सुविदत्त्रः अस्मे सुविदत्र इति अस्मे यष्टाः अस्मे इत्यस्मे यष्टा देवान् एवागुम् देवा आयुजिष्ठः आयजिष्ठस्वस्ति आयजिष्ठ इत्यायजिष्ठः स्वस्तीति स्वस्ति अदब्धो गोपाः गोपा उत गोपा इति गोपाः उत नः नः परस्पाः परस्पा अग्नेः परस्पा इति परहपाः अग्नेः द्युमत् द्युमदुत द्युमदिति द्युमत् उतरेवत् रेवद्दिः दिदीहीति दिदीः य इमा इमाविश्वाः विश्वा भुवनानि भुवनानि जुह्वद् जुह्वऋषिः ऋषिर्होताः होतानि शसाद विषसादा पिता विषसादेति न ससाद पितानः भैतिनः स आशिषाः आशिषा द्रविणम् आशिषेत्या आशिषाः द्रविणमिच्छमानः परमच्छदः परमच्छदोपरेः परमच्छद इति परमाच्छदः परहा विवेशेति विवेश विश्वकर्मा मनसा विश्वकर्मेति विश्वाकर्माः मनसा यत् यद्विहायाः विहाया धाता विहाया इति विहायाः धाता विधाता विधाता परमा विधातेति विधाता परमोत उत सन्दृक् सन्दृगिति सन्दृग् तेषामिष्टानि इष्टानि सम् समिषा इषा मदन्ति यत्र यत्र सप्तऋषीन् परः सप्तर्षीनिति सप्तार्षीन् पर एकमाहुः आहुरित्याहुः यो नः नः पिता पिता जनिता चनितायः योऽभिधाता विधातायः विधातेति विधाता यो नः नः सतः सतो अभि अभ्या आसद् सज्जान जजानेति जजान यो देवानाम् देवानाम् नामधाः नामधा, नामधा एकः नामधा इति नामाधाः एक एव तम् तम्प्रश्ण्यम् सम्भ्रश्ण्यम् भुवना संरश्मिति संरश्नम् भुवनायन्ति यन्त्यन्या अन्येऽत्यन्या त आयजन्त अयजन्त द्रविणम् द्रविणधुंसम् समस्मै अस्मा ऋषयः पूर्वे पूर्वे जलितारः चलितारो न भूना भूनेति भूना असूर्तासूर्ताः सूर्ता विमानेः ये विमान इति विमानेः ये भूतानि भूतानि समकृण्वन् समकृण्वन् इमानि समकृण्वन् इति समकृण्वन् इमानि न तम् तम् विदाथ विदाथयः य इदम् इदम् जजान जजानान्यत् अन्यद्युष्माकम् युष्माकमन्तरम् भवाति भवातीति भवाति निहारेण प्रावृताः प्रावृता जल्प्याः जल्प्या च चासुतृपः असुतृपमुक्थशासः असूतृप इत्यसूतृपः मुक्थशासश्चरन्ति मुक्थशास इत्युक्थाशासः दिवापरः पर येना येना पृथिव्या पृथिव्यापरः परो देवेभिः देवेभिरसुरैः देवे असुरैर्गुहाः गुहायत् यदिति यत् कग्स्वित् स्विद्गर्भम् दध्रे दध्वापः आपो यत्र यत्त्र देवाः देवाः समगच्छन्त समगच्छन्त समगच्छन्तेति सम् अगच्छन्त विश्व इति विश्वेः तन्मिद् यद्गर्भम् गर्भम् प्रथमम् प्रथमम् दध्रे दध्रापः आपो यत्र यत्र देवाः देवाः समगच्छन्त समगच्छन्त विश्वेः समगच्छन्तेति सम् अगच्छन्त विश्व इति विश्वेः रजस्य नाभूः नाभावधि तध्येकम् <Sess> एकमर्पितम् अर्पितम् यस्मिन् यस्मिन्निदम् विश्वम् विश्वम् भुवनम् भुवनमधि अधिश्रितम् श्रितमिति श्रितम् विश्वकर्मा हि विश्वकर्मेति विश्वाकर्माः यजनिष्ट अजनिष्टदेवः देवात् देवा आदित् अभवत् अभवद्वितीयः विलीय द्वितीयः तृतीयः पिता पिता औषधीनामपा अपाम् गर्भम् व्यदथात् अदथात्पुरुत्रा पुरुत्रेति पुरुत्रा चक्षुषः पिता पिता मनसा मनसा हि धीरः धीरोघृतम् घृतमेने येने च येने इत्येने अचनम् नन्नमाने नन्नमाने इति नन्नमाने यदेर् इदन्ता अन्ता अददृगम्हन्त अददृग्ंहन्त पूर्वे पूर्वात् आदिर् इद्या वा पृथिवी द्यावा पृथिवी द्यावापृथिवी इति द्यावापृथिवी अप्रथेतामित्यप्रथेताम् विश्वतश्चक्षुर्त विश्वतश्चक्षुर्ति विश्वतः चक्षुः उत विश्वतोमुखः विश्वतोमुखो विश्वतो हस्तः विश्वतोमुख यदि विश्वतः मुखः विश्वतोहस्त उत विश्वतो हस्त यदि विश्वतः हस्तः उत विश्वतस्पात् विश्वतस्पादिति विश्वतः पात् सम् बाहुभ्याम् बाहुभ्याम् नमति बाहुभ्यामिति बाहूभ्याम् नमति सम्पतत्रैः पतत्रैर्द्या वा पृथिवी जनयन् या इति द्या वा पृथिवी जनयन् देवः देव एकः एक इत्येकः तिगस्वित् स्विदासीत् आसीदधिष्ठानम् अधिष्ठानमारम्भणम् अधिष्ठानमित्यधिस्थानम् आरम्भणम् कथमत् यदि भूमिम् भूमिम् जनयन् जनयन् विश्वकर्मा विश्वकर्मा विश्वकर्मेति विश्वाकर्मा विद्याम् द्यामौर्णोत् कौर्णोऽहम् महिना महिना विश्वचक्षाः विश्वचक्षा यदि विश्वाचक्षाः यद्यस्य च सिद्वनम् वानङ्कः उसः वृक्षः वृक्षः आसीत् आसीद्यतः यतो द्यावापृथिवी द्यावापृथिवीनिष्टदक्षुः या वा पृथिवी इति द्यावा पृथिवी निष्ठदक्षुरिति निहि तदक्षुः मनसा मनसा पृच्छद पृच्छदेत् इदु तत् तद्यत् यदध्यतिष्ठत् अध्यतिष्ठद्भुवनानि अध्यतिष्ठदित्यधि अतिष्ठत् भुवनानि धारयन् धारयन्निति धारयन् धामानि परमाणि परमाणि या या वमा मध्यमा मध्यमा विश्वकर्मन् विश्वकर्मन्निति विश्वाकर्मन् ऋते वा इमेतीमा शिक्षा सखिभ्यः सखिभ्यो हविषि सखिभ्य इति सखीभ्यः हविषिः स्वधावः सुधावः स्वयम् सुधाव इति स्वधावः स्वयङ्यजस्व यजस्वतनुवम् तनुवञ्जुषाणः जुषाण इति जुषाणः वाचस्पतिम् परिम् विश्वकर्माणम् विश्वकर्माणमूदये विश्वकर्माणमिति विश्वाकर्माणम् ऊतये मनोजुजम् मनोजुजम् वाजेः मनोजुजमिति मनहायुजम् वाजे अद्य अद्याहुवेम हुवेमेति हुवेम स नः नो नेदिष्ठा नेतिष्ठा हवनानि हवनानि जोषते जोषते अवसे साधुकर्म साधुकर्मेति साधुकर्माः विश्वकर्म हविषाः विश्वकर्मन्निति विश्वाकर्मन् अविषा वावृधानः वावृधानः स्वयम् स्वयम् यजस्व यजस्व तनुवम् तनुवञ्जुषाणः विषाण इति अन्ये अभितः अभितः सपत्नाः सपत्ना इह इहास्माकम् अस्माकम् मघवाः मघवा सूरिः मघवेति मघवाः सूर्यरस्तु अस्त्वित्यस्तु विश्वकर्म हर्विषाः विश्वकर्मन् इति विश्वाकर्मन् हर्विषावर्धनेन वर्धनेन त्रातारम् त्रातारमिन्द्रम् इन्द्रमगृणोः अकृणोरवध्यम् अवध्यमित्यवध्यम् तस्मै विषः विषः सन् समनवन्त पूर्वीरयम् लयमुग्रः उग्रो विहव्यः इति हव्यो यथा विहव्य इति विहव्यः यथासत् असदित्यसत् समुद्राय वजुनाय वजुनाय सिन्धूनाम् सिन्धूनाम् पतये पतये नमः नम नमः नदीनादुम् सर्वासाम् सर्वासाम् पित्रे पित्रे जुहृत जुहृताश्वकर्मणे विश्वकर्मणे विश्वाः विश्वकर्मण इति विश्वाकर्मणे विश्वाहा अहामर्त्यम् अमर्त्यगम् हविः हविलिखि हविः उदेनम् एनमुत्तराम् उत्तरान्नय उत्तरामित्युत्तराम् नजाग्नेः अग्ने धृतेन धृतेनाहुत आहुतेत्या आहुत प्रायस्कोषेण कोषेण संसम्सप्रजया प्रजया च प्रजयेति प्राजया च धनेन धनेन च चेति च इन्द्रेगम् इमम् प्रतराम् प्रतराम् कृधि प्रतरामिति प्रातराम् प्रधि सजातानामसत् स जातानामिति सा असद्वशी वशीति वशी समेनम् एनम् वर्चसा वर्चसा स देवेभ्यः देवेभ्यो भागधाः भागधा असत् भागधा इति भागाधाः असदित्यसत् यस्य कुर्मः कुर्मो हविः हविर्गृहे गृहे तम् त्वमग्ने अग्ने तस्मै देवाः देवाधि अधिब्रमन् भवन्नयम् अयम् च तमणः ब्रह्मणस्पतिः पदिलितिपतिः उदो हृत्वा विश्वे विश्वे देवाः देवाः अग्नेः अग्ने भरन्तु अग्ने भरन्तु चित्तिभिः चित्तिभिरितिचित्तिभिः स नः नो शिवतमः शिवतमः शिवतम इति शिवातमः सुप्रतीको विभावसुः सुप्रतीक इति सुप्रतीकः विभावसुरिति विभावसुः पञ्च दिशः दिशो दैवीः दैवीर्यज्ञम् यज्ञ भवन्तु भवन्तु देवीः देवीरप अपामतिम् अमलिम् दुर्मतिम् बाधमानाः दुर्मतिमिति बाधमाना इति बाधमानाः राजस्पोशेः पोषे यज्ञपतिम् यज्ञपतिमाभजन्तीः यज्ञपतिमिति यज्ञापतिम् आभजन्तीर्त्या आभजन्तीः आयस्पोषे पोषे अधि अधियज्ञः यज्ञो अस्थात् अस्थात्समिद्धे समिद्धे अग्नौ समिद्धादिसंद्धे अग्नावधि अधिमामहानः मामहान इति मामहानः उक्थपत्ररीड्यः उक्थपत्र इत्युक्थापत्रः ईड्यो गृभीतः गृभीतस्तप्तम् तप्तम् घर्मम् घर्मम् परिगृह्य परिगृह्यायजन्त परिगृह्येति परिगृह्य अजन्तेत्यजन्त ऊर्जायत् यद्यज्ञम् यज्ञमशमन्त अशमन्तदेवाः देवादैव्याय दैव्याय धर्त्रे धर्त्रे ज्योष्ट्रे ज्योष्टे ज्योष्ट्रे देवश्री श्रीमणाः देवश्रीरिति देवा श्रीः श्रीमणाः श्रीमणा इति श्रीमणाः शतपयाः परिगृह्य शतपया इति शतापयाः परिगृह्य देवाः परिगृह्येति परीगृह्य देवायज्ञम् यज्ञमायन् आजन्नित्याजन् सूर्यरश्मिर्हरिकेशः सूर्यरश्मिरिति सूर्यारश्मिः हरिकेशः पुरस्तात् हरिकेश इति हरिकेशः पुरस्तात्सविता सविता ज्योतिः ज्योतिरुत् उदगान् अजाघुम् अजस्रम् तस्य पूषा पूषाप्रसवम् प्रसवम् याति प्रसवमिति प्रासवम् यातिदेवः देवः सम्पश्यन् सम्पश्यन् विश्वाः सम्पश्यन्निति सम्पश्यन् विश्वा भुवनानि भुवनानि गोपाः गोपा इति गोपाः देवा देवेभ्यः देवेभ्यो अधर्यन्तः अद्धर्यन्तो अस्थु अस्थुर्वीतम् वीतदम् समित्रे शमित्रे शविता शमिता यजध्येः यजध्या यज्ञः यज्ञो यत्र यत्र हव्यम् हव्यमेति एति ततः ततः पावकाः आशिषः आशिषो नः आशिष इत्या आशिषः नो द्विषन्ताम् एषः विमान इति विमानः एष दिवः मध्ये मध्य आस्ते आस्तापप्रिवान् आपप्रिवान् रोदसी आपप्रिवान् इत्या आपप्रिवान् रोदसी रोदसी इति रोदसी अन्तरिक्षमित्यन्तरिक्षम् स विश्वाचीः विश्वाचीरभि अभिचष्टे चष्टे घृताचीः घृताचीरन्तरा अन्तरापूर्वम् पूर्वमपरम् अपरम् च सकेतुम् केतुमिति केतुम् मुक्षा समुद्रः समुद्रो अरुणः अरुणः सुपर्णः पूर्वस्य सुपर्ण इति पूर्वस्य योनिम् योनिम् पितुः पितुला आविवेश विवेशेति मध्ये दिवः दिवो निहितः निहितः पृश्निः निहित इति निहितः पृष्टिरश्माः अश्मावि विचक्रमे चक्रमे रजसः रजसः विश्वाः विश्वाविवृधन् विवृधन् समुद्रव्यचसम् समुद्रव्यचसम् गिरः समुद्रव्यचसमिति समुद्राव्यजसम् गिर इति गिरः रथितमलम् रथीनाम् वाजानागुम् सत्पतिम् सत्पतिम् सत्तिं पतिम् सत्पतिमिति सत्पतिम् पतिमिति पतिम् सुहोर्यज्ञः सुम्नहोरिति यज्ञो देवान् देवागुम् आ आच चवक्षत् वक्षद्यक्षत् यक्षदग्निः अग्निर्देवः देवो देवान् देवागुम् आ आच चवक्षत् वक्षदिति वक्षत् राजस्य प्रसवेनोद्ग्राभेण प्रसवेनेति प्रासवेन उद्ग्राभेणोद्ग्राभेणेत्युत् ग्राभेण उदग्रभीद् उद अग्रभीदित्यग्रभीद् अथ सपद्नान् सपद्नागुम् इन्द्रः इन्द्रो मे एग्राहेण निग्राभेणाधरान् निग्राभेणेति निग्राभेण अधरागम् अकः अकरित्यजः उद्ग्राभम् च उद्ग्राभमित्युत् ग्राभम् च उद निग्राभम् निग्राभम् च निग्राभमिति च ब्रह्म ब्रह्मदेवाः देवा अवीवृधन् अवीवृधन्नित्यवीवृधन् अथ सपद्नान् सपद्नामिन्द्राग्नी इन्द्राग्नी मे इन्द्राग्नी इति इन्द्राग्नी मे विषोचीनान् विषोचीनावि व्यस्यताम् अस्यतामित्यस्यताम् आशुःशिशानः शिशानो वृषभः वृषभो न युध्मः युध्मो घनाघनः घनाघनः क्षोभणः क्षोभणश्चर्षणीनाम् जर्षणीनामिति चर्षणीनाम् सङ्क्रन्दनो निमिषः सङ्क्रन्दन इति साङ्क्रन्दनः अनिविष एकवीरः अनिविषयत्यनीविषः एकवीरः शतम् एकवीरैत्येकवीरः शतकम्सेनाः सेना अजयत् अजयत्साकम् साकमिन्द्रः अनिविषेण जिष्टुनाः अनिविषेणेत्यनिविषेण जिष्णुना यत्कारेण युत्कारेण दुश्चवनेन युत्कारेणेति यत्कारेण दुश्चवनेन दुश्चवनेनेति दुहोच्यवनेन धृष्टनेति धृष्टनाः तदिन्द्रेण इन्द्रेण जयत जयत तत् तत्सहध्वम् सहध्वम् युधः युधो नरः इषुहस्तेन इषुहस्तेन कृष्णाः इषुहस्तेनेतेषु हस्तेन कृष्णेति कृष्णाः स इषुहस्तैः इषुहस्तैः सह इषुहस्तैरितेषो हस्तैः स निषङ्गिभिः निषङ्गिभिर्वशिः वशीसर्गस्रष्टा सर्गस्रष्टा सः सर्गस्रष्टेति संसृष्टाः स युधः युध इन्द्रः इन्द्रो गणेन गणेनेति गणेन सकम् अस्तेत्यस्ता बृहस्पते परि परिदीय दीयारथेन रथेन रक्षोः रक्षोः मित्रान् रक्षोहेऽपि रक्षाः अमित्रागम् अपबाधमानः अपबाधमान इत्यपबाधमानः प्रभञ्जन् सेनाः प्रभञ्जन् इति प्राभञ्जन् सेनाः प्रवृणः प्रमृणो युधा प्रवृण इति प्रावृणः युधा गोत्रभिदम् गोविदम् गोत्रभिदमिति गोत्राभिदम् गोविदम् वज्रवाहुम् गोविदमिति गोविदम् वज्रवाहम् जयन्दम् वज्रवाहुमिति वज्राबाहुम् जयन्तमध्म अज्वप्रमृणन्तम् प्रवृणन्दमोजसा प्रमृणन्दमिति प्रामृणन्दम् ओजसेत्योजसा इमगुंसजाताः सजातानु जाता इति सा जाताः अनुवीरयध्वम् वीरध्वेन्द्रम् इन्द्रगुंसखायः सखायोनु अनुसम् सगुम्रभध्वम् अभध्वमिति रभध्वम् बलविज्ञायस्थविरः बलविज्ञाय इति बलाविज्ञायः स्थविरः प्रवीरः प्रवीरः सहस्वान् प्रवीर इति प्रावीरः सहस्वान्वाजी वाजी सहमानः सहमान उग्रः उग्र इत्युग्रः अभिवीरो अभिसत्त्वा अभिवीर इत्यभिवीरः अभिसत्त्वा सहोजाः अभिसत्त्वेत्यभिसत्त्वा सहोजा जैत्रम् सहोजा इति सहजाः जैत्रमिन्द्र इन्द्ररथम् रथमा आदिष्ठ इष्टगोवित् गोविलिविगोवित् अभिगोत्राणि गोत्राणि सहसा सहसा गाहमानः गाहमानोदायः अदायो वीरः वीरः शतमन्युः शतमन्युरिन्द्रः शतमन्युरिति शतामन्युः इन्द्र इति इन्द्रः दुश्चवनः सेनाः सेना अवतो अवतु प्रा प्रयुत्सु युत्स्यतिसु आसाम् नेता नेता बृहस्पतिः बृहस्पतिर्दक्षिणा दक्षिणा यज्ञः यज्ञः पुरः पुर एतु ये, ज्या, ये तु सोमः सोम इति सोमः देवसेनानामभिभञ्जतीनाम् देवसेनानामिति देवासेनानाम् नाम, अभिभञ्जतीनाम् जयन्तीनाम् अभिभञ्जतीनामित्यभिभञ्जतीनाम् जयन्तीनाम् मरुतः इन्द्रस्य वृष्णः कृष्णो वरुणस्य वरुणस्य राज्ञः राज्ञादित्यानाम् आदित्यानाम् मरुताम् मरुतानिषद्धः श्रद्ध उग्रम् उग्रमित्युग्रम् महामनसाम् भुवनच्यवानाम् महामनसामिति महामनसाम् भुवनच्यवानाम् घोषः भुवनच्यवानामिति भुवनाच्यवानाम् घोषो देवानाम् देवानाम् जयताम् जयतामुत् उदस्थात् अस्थादित्यस्थात् अस्माकमिन्द्रः इन्द्रः समृतेषु समृतेषु ध्वजेषु समृतेष्विति सामृतेषु ध्वजेष्वस्माकम् अस्माकञ्याः या इषवः इषवस्ताः ता जयन्तो जयन्विजयन्तौ अस्माकम् वीराः वीरा उत्तरे उत्तरे भवन्तु उत्तर इत्युक्तरे भवन्तस्मान् अस्मान् उदेवाः एवावत अवताहवेषु हवेष्टिहवेषु उद्धर्षय हर्षय मघवन् मघवन्नायुधानि मघवन्निति मघावन् आयुधान्यत् उत्सत्त्वनाम् सत्त्वकानामकानाम् मामकानाम् महागुंसि महाकुंसि इति महागुंसि उद्धृत्रहन् वृत्रहन्वाजिनाम् वृत्रहन्निवृत्रहन् वाजिनाम् वाजिनानि वाजिनान्यत् उद्धृथानाम् वृथानाम् जयताम् प्रयतामेतु एत घोषः घोष इति घोषः उपप्रा प्रयत इतजयत जयता नरः नरः स्थिरावः वः सन्तु सन्तु इन्द्रो वः वः शर्म शर्म यच्छ यच्छतु यच्छत्र नाश्याः नाधृष्या यथाः नाधृष्या इत्युनाधृष्याः यथा सथ असथेत्यसथ अवसृष्टा पराः अवसृष्टेत्युना सृष्टाः परापद पदशरव्ये शरव्ये, शरव्ये ब्रह्मसुघंशिला ब्रह्मसुगंशिले ब्रह्मसगंशिदाः गच्छामित्राले अमित्रान् प्रविश विषमा मैषाम् येषाम् कञ्चन क्षणोत् उच्छिषः शिश इति शिशः वर्माणि ते ते वर्मभिः वर्मभिच्छादयामि वर्मभिरिति वर्माभिः छादयामि सोमः सोमस्त्वा त्वा राजा अमृतेनाभि अधिवस्ताम् वस्तामिति वस्ताम् पुरोर्वरीयः वरीयो वरिवह वरिवस्ते अस्तु अस्तु जयन्तम् जयन्तम् त्वाम् त्वामनु मदन्तु देवाः देवा यत्र बाणाः बाणाः सम्पतन्ति सम्पतन्ति कुमाराः सम्पतन्तीति सम्पतन्ति कुमाराविशिखाः विशिखा इव विशिखा इलिविशिखाः इवेतीव इन्द्रो नः नस्तत्र तत्र वृत्रः वृत्रः विश्वाः वृत्रहेजुवृत्राः विश्वाः शर्म विश्वाहेजिविश्वाः शर्म यच्छतु यच्छत्विति यच्छतु प्राचीमनु अनुप्रदिशम् प्रतिशम् प्रदिशमिति प्रादिशम् त्रेहि इहि विद्वान् विद्वानन्नेः अग्नेरग्ने अर्णे पुरो अग्निः पुरो अग्निर्भव पुरो अग्निरितिपुरहग्निः भवेह इहेह विश्वा आशा आह आशादीद्यानः दीद्यानोऽपि विभाहि बाह्यूर्जम् ऊर्जन्नः नो धेहि धे द्विपदेः द्विपदे चतुष्पदे द्विपद इति द्विपदेः चतुष्पद इति चतुःपदेः क्रमध्वमग्निना अग्निनानाकम् अस्त्रेषु बिभ्रतः बिभ्रत इति बिभ्रतः इवः पृष्ठम् पृष्ठगम् सुवः सुमर्गत्वा गत्वा मिश्राः मिश्रा देवेभिः देवेभिरार्ध्वम् आर्ध्वमित्यार्ध्वम् अहम् अहमुद् उदन्तरिक्षम् अन्तरिक्षमा आरुहम् अरुहमन्तरिक्षाद् अन्तरिक्षाद्दिवम् दिवमा आरुहम् अरुहमित्यरुहम् दिवो नागस्य नागस्य पृष्ठात् पृष्ठात्सुवः सुमर्ज्योतिः ज्योतिरगाम् रमहम् अहमित्यहम् सुपर्यन्तः यन्तो न ना नाप अपेक्षन्ते ईक्षन्तः आद्याम् यागुम् रोहन्ति रोहन्ति रोदसी रोदसी इति रोदसी रो ये ये विश्वतोधारम् विश्वतोधारकम् सुविद्वागुंसः विश्वतोधारमिति विश्वतः धारु सुविद्वागुंसोऽपि ते निरे सुविद्वागुंस इति सो विद्वागुंसः इति निरैविते निरे प्रथमः प्रथमो देवयताम् देवयताञ्चक्षुः देवयतामिति देवायताम् चक्षुर्देवानाम् देवानामुत उत मर्त्यानाम् मर्त्यानामिति मर्त्यानाम् वियक्षमाणा भृगुभिः भृगुभिः सजोषा आह भृगुभिरिति भृगुभिः सजोषाः स्वः सजोषा इति सा जोषाः सुपर्यन्तु यन्तु यजमानाः स्वस्ति स्वस्तीतिः स्वस्ति न्यक्तोषा सा समनसा समनसा विरूपे समनसेति सा मनसाः विरूपे धापयेते विरूपे यविरूपे धापयेत् शिशुम् धापयेत् इति धापयेत् शिशुमेकम् एककम् समीची समीची, समीची। मा मा अग दिन। अग दिन धारें। धारें इति समीची जावा क्षाम क्षामा रुक्मः रुक्मो अन्तः अन्तर्वि विभवति भवति देवाः देवा अग्निम् अग्निम् धारयन् धारयन् द्रविणोदाः द्रविणोदा इति द्रविणः दाः सहस्राक्षेति सहस्राक्ष शतमूर्धन् शतम् शतमूर्धन् इति शतामूर्धन् शतम् ते ते प्राणाः प्राणाः सहस्रम् प्राणा इति प्रा अणाः सहस्रमपानाः अपाना, अपाना इत्यपानाः त्वं साहस्रस्य, साहस्रस्य राजः प्रायईशिषे ईशिषे तस्मै तस्मै ते ते विधेम विधेमवाजाय वाजायस्वाहा वा अस्वाहेति स्वाहा सुपर्णोऽसि सुवर्ण इति दरुत्मान् पृथिव्याम् पृथिव्यागंसीद शीतपृष्ठे पृष्ठे पृथिव्याः पृथिव्याः सीद शीतभासा भासान्तरिक्षम् अन्तरिक्षमा आपणज्योतिषा ज्योतिषादिवम् दिवमुत् उत्तभानस्तभानतेजसा तेजसा दिशः दिशमुत् दृगुम्ह दृगुम्भेति दृगुम्ह आजुह्वानः सुप्रतीकः सुप्रतीकः पुरस्तात् सुप्रतीक इति सुप्रतीकः पुरस्तादग्ने अग्ने स्वाम् स्वाञ्योनिम् योनिमा आसीद सीदसाध्या साध्येति साध्य अस्मिन्सधस्थे सधस्थे अधिसधस्थ इति सधास्थे तद्युत्तरस्मिन् उत्तरस्मिन् विश्वे उत्तरस्मिन् इत्युदत्तरस्मिन् विश्वे देवाः देवा यजमानः यजमानश्च सीदतेति सीदत प्रेद्धो अग्ने प्रेद्ध इति प्राधः अग्ने दीदिः दीदिः पुरः पुरो नः नोऽजस्रया अजस्रया सूर्म्याः सूर्म्या यविष्ठ यविष्ठेति यविष्ठ त्वागुम् शश्वन्तः शश्वन्त उप उपयन्ति यन्ति वाजाः वाजादिति वाजा आह विधेमते ते परमे परमे जन्मन् जन्मन् अग्ने अग्ने विधेम विधेम स्तोमैः स्तोमैरवरे अवरे सधस्थे सधस्थ इति सधास्थे यस्माद्योनेः योनेरुदारिथ रुदारिथ यजे ए उदारिथेत्युत आरिथ यजेतम् तम् तं, प्र त्वे त्वे हवीगुंषि त्वे इति त्वे हवीगुंषि जुहुरे जुहुरे समिद्धे समिद्ध इति संे समिध्य। तापुंसपितुः सुवितुर्वरेण्यस्य वरेण्यस्य चित्राम, चित्रामा अहम् ऋणे ऋणे सुमतिम् विश्वजन्याम् सुमतिमिति सुमतिम् विश्वजन्यामिति विश्वाजन्याम् यामस्य अस्य कण्वः कण्वो अदुहद् अदुहत्प्रवीणाम् प्रवीणागुम् सहस्रधाराम् प्रवीणामिति प्रापीणाम् सहस्रधाराम् वयसा सहस्रधारामिति सहस्राधाराम् वयसा महीम् महीम् गाम् गामिति गाम् सप्तदे ते अग्नेः अग्ने समिधः समिधः सप्त समिध इति संमिधः सप्त सप्त सप्त सप्तधाम धामप्रियाणि प्रियाणेति प्रियाणि सप्त होत्राः होत्राः सप्तधा सप्तधात्वाः सप्तधेति सप्ताधा त्वा यजन्ति यजन्ति सप्त सप्तयोनीः योनीरा आपणस्व प्रणस्वाघृतेन घृतेनेतिघृतेन ईदृम् चान्यादृङ् अन्यादृम् चैतादृङ् एतादृम् च प्रतिदृङ् कथिदृम् च प्रतिदृङिति प्रतिदृङ् चमितः मितश्च च संविदः संमितश्च संवितसंवितः च सभराः सभरा यदिसाभराः शुक्रज्योतिश्च शुक्रजोदलितशुक्राज्योतिः चित्रज्योतिः चित्रज्योतिश्च चित्रज्योदलितचित्राज्योतिः च सत्यज्योतिः सत्यज्योतिश्च सत्यज्यो दलितसत्याज्योतिः च ज्योतिष्मान् ज्योतिष्माविश्च च सत्यः सत्यश्च च तपाः ऋतपाश्च ऋतपायत्रितापाः सात्यगुम्भाः अत्यगुम्भा इत्युम्भाःजिच्च रजिदिचित् सत्यजित् सत्यजिच्च सत्यजिति सत्याजित् सेनजित् केनचिच्च केनजिदिति सेनचित् स सुषेणः सुषेणश्च सुषेण इति सुसेनः चान्त्यमित्रः अन्त्यमित्रश्च अन्त्यमित्र अमित्रः च अमित्रः दूरे अमित्रश्च दूरे अमित्र दूरे अमित्रः गणः गण गणः ऋतश्च च सत्यः सत्यश्च ध्रुवः ध्रुवश्च धरुणः धरुणश्च त्वधर्ता धर्ता च जा विधर्ता च विधर्तेति वीधर्ता च विधारयः विधारय इति वीधारयः ईदृक्षास एतादृक्षासः एतादृक्षासवो ओषुणः सुनः नसदृक्षासः सदृक्षासः प्रतिसदृक्षासः प्रतिसदृक्षास आ प्रतिसदृक्षास इति प्रतिसदृक्षासः एतन इतनेतीतन नितासश्च च संमितासः संमितासश्च संमितास इति सन्नितासः ऊतये ऊतये सभरसः सभरसो मरुतः यज्ञे यज्ञे अस्मिन् अस्मिन्निन्द्रम् इन्द्रम् दैवीः दैवीर्विषः विषो मरुतः मरुतोऽनुवर्त्मानः अनुवर्त्मानोऽ यथाः अनुवर्त्मानैत्यनो वर्तमानः यथेन्द्रम् इन्द्रम् दैवीः दैवीर्विषः विषो मरुतः मरुतोऽनुवर्त्मानः अनुवर्त्मान वर्तमानः एवमिमम् इमम् यजमानम् यजमानम् दैवीः दैवीश्च च विषः विशो मानुषीः मानुषीश्च चानुवर्त्मानः अनुवर्त्मानो भवन्तो अनुवर्त्मानैत्यनो वर्त्मानः भवन्तिति भवन्तो प्रतीकञ्जत् यद्वर्मी वर्मी याति याति समदाम् समदामुपस्थये समदामिति सा मदाम् उपस्थयत्युपास्थये अनाविद्धया अना तनुवाः अनाविद्धयेत्यनाविद्धगा तनुवाजयत्वम् त्वरंसः सत्त्वाः त्वामर्मणः वर्मणो महिमा महिमा विवर्तु विभर्त्विति विभर्तो धन्वनागाः या धन्वना धन्वनाजिम् आजिञ्जयेव हेमधन्वना धन्वना तीव्राः तीव्राः समदः समदो जयेम समद इति सामदः जयेमेति जयेम धनुःशत्रोः शत्रोरपकामम् अपकामम् कृणोति अपकाममित्यमाकामम् कृणोति धन्वना धन्वना सर्वाः सर्वाः प्रदिशः प्रदिशो जयेम प्रदिश इति प्रादिशः प्रयेमेति जयेम रक्षन्तीव इवेत् इदा आगणीगन्ति गणीगन्ति कर्णम् कर्णम् प्रियम् प्रियम् सखायम् सखायम् वरिषस्वजाना परि सस्व जानेति परि सस्वजाना योषेव इव शिङ्ते शिङ्ते वितता वितताधि विततेति वितता अधिधन्वन् धन्वम् जा जा इयम् इयम् समने समने पारयन्ति पारयन्तीति पारयन्ति ते आचरन्ति ते इति ते आचरन्ति समना आचरन्ति इत्या सममेव इव योषाः योषा माता मातेव इमपुत्रम् पुत्रम् विभ्रताम् विभ्रताम् वस्थेः उपस्थैत्युपास्थेः अपशत्रून् शत्रून् विध्यताम् विध्यताम् संविधाने संविधाने आर्त्नीः संविधाने इति संविधाने आर्त्मि इमे आर्त्मे इत्यार्त्नीः इमे विस्फुरन्तीः इमे इतीमे विस्फुरन्ती अमित्रान् विस्फुरन्तीति विस्फुरन्तीः अमित्रानित्यमित्रान् बह्वीनाम् पिता पिता बहुः बहुवस्य पुत्रः पुत्रश्चिश्चा चिश्चा कृणोति कृणोति समनावगत्य समना अवगत्येत्यवागत्य इषुधिः सङ्गाः इषुधिरितिषुभिः सङ्गाः पृतनाः पृतनाश्च सर्वाः सर्वाः पृष्ठे पृष्ठे निनद्धः निनद्धो जयति निनद्ध इति नीनद्धः जयति प्रसूत इति प्रासूतः रथे तिष्ठन् तिष्ठन् यदि वाजनः पुरः पुरो यत्र यत्र यत्र, यत्र यत्र यत्र यत्र कामयते यत्र यत्रेति यत्र यत्र कामयते सुषारथिः सुषारथिरिति सुसारथिः अभीषूनाम् महिमानम् महिमानम् वनायत रणायतमनः मनःपश्चाद् पश्चादनु अनुयच्छन्ति यच्छन्ति रश्मयः रश्मय इति रश्मयः तीव्रान् घोषान् घोषान् क्रवते कृते दु वृषपाणयः वृषपाणयोश्वाः वृषपाणय इति वृषापाणयः अश्वारथेभिः रथेभिः सह वाजयन्त इति वाजयन्तः अवक्रामन्तः प्रपदैः अवक्रामन्त इत्यवाक्रामन्दः प्रपदैरमित्रान् प्रपदैरिति प्रापदैः रत्रान् क्षिणन्ति क्षिणन्ति शत्रून् शत्रोपम् ऋणपव्ययन्दः अनपव्ययन्तैत्यनपाव्ययन्तः रथवाहनगम् हविः रथवाहनमिति हविरस्य अस्य नाम नाम यत्र यत्रायुधम् निहितमस्य निहितमिति निहितम् अस्य वर्म वर्मेज वर्म तत्रार्थम् रथमुप उपशग्मम् शग्मगुंसदेम सदेव विश्वाहाः विश्वाहा वयम् विश्वाहेति विश्वाहा वयगुंसु मनस्यमानाः सुमनस्यमानायि सुमनस्यमानाः स्वादुषकुंसदः पितरः स्वादुषकुंसद इति स्वादुषकुंसदः पितरोवयोधाः प्रयोधाः कृच्छ्रेश्रितः प्रयोधा इति वयहाधाः कृच्छ्रेषशक्तीवन्दः कृच्छ्रेश्रित इति कृच्छ्रेश्वः शक्तिवन्तो गभीराः शक्तिवन्त इति शक्तिवन्तः गुभीरा इति गुभीराः चित्रसेना इषुबलाः चित्रसेना इति चित्रासेनाः इषुबला अमृध्राः इषुबला इति इषुबलाः अमृध्राः सतो वीराः सतो वीरा उरवः सतो वीरा इति सतः वीराः उरवो व्रातसाहाः व्रातसाहा इति व्रातसाहाः ब्राह्मणा सह पितरः पितरः सोम्या सह सौम्या earth... सः शिवे शिवे नः शिवे इति शिवे नोद्या वा पृथिवी द्यावापृथिवी अमेहसाः द्या वापृथिवी इति द्या वा पृथिवी अमेहसेत्यमेहसाः पूषानः अस्पात् पातु दुरितात् दुरितादृतावृधः दुरितादिति सूचितात् दुरिताद। कृतावृतो दुरिताद। दुरिताद दुरिताद। दुरिताद। रक्ष कृतावृतैत्कृतावृधः रक्षा माकिः माकिर्नः नो अधशकंसः अधशकंसईशत अघशकुंस <Sess> इत्यघाशगुंसः ईषतेतीशत सुपर्णम् हस्ते सुपर्णमिति सुपर्णम् मृगः मृगो अस्यादन्तः दन्तो गोभिः सन्नद्धा सन्नद्धा वृतति सन्नद्धेति सन्नद्धाः पतति प्रसूता प्रसूतेदिप्रासूताः यत्र नरः नरः सम् सञ्च छविच द्रवन्ति द्रवन्ति तत्रास्मभ्यम् अस्मभ्यमिषवः अस्मभ्यमित्यस्माभ्यम् इषवः शर्म शर्म यगुंसन् यगुंसन्निति यगुंसन् यतीते परि परिवृन्धि वृन्धिनः नोऽश्मा अश्मा भवतु सोमो अधि अधिब्रवीतु ब्रवीतुरः नो दितिः अतिदितिः शर्म शर्म यच्छतु यच्छत्विति यच्छतु आजङ्घन्ति उप उपजिघते जिघत इति जिघते अश्वाजिनि प्रचेतसः अश्वाजिनीत्यश्वाजिनि प्रचेतसोऽश्वान् प्रचेतस इति प्राचेतसः अश्वान्समत्सु समत्सु चोदय समत्स्विति समत्सु चोदयेति चोदया अहिरिव इव भोगैः भोगैः परि पर्येति हेति बाहुम् बाहुञ्जायाः ज्याया हेतिम् हेतिम् परिबाधमानः परिबाधमान इति परिबाधमानः हस्तघ्नो विश्वा हस्तघ्न इति हस्ताघ्नः विश्वा भजनानि भजनानि विद्वान् विद्वान् पुमान् पुमान्पुमागुंसम् पुमागुंसम् परि परिपादो पादविश्वतः विश्वद इति विश्वतः वनस्पते वेद्वङ्गः वेद्भङ्गो हि वेद्वङ्ग इति वीडूङ्गः इति भूयाः भूया अस्मत्सखा अस्मत्सखा प्रतरणः अस्मत्सखेत्यस्मते सखाः प्रतरणः सुवीरः प्रतरण इति सुवीरः लोभिः सन्नद्धः सन्नद्धोऽसि सन्नद्धैरि सन्नद्धः असि वीळेश्व बीळेष्वास्थाता आस्थाताते आस्थातेत्यास्थाता जयते तु जयजेत्वानि जेत्वानि द्विजेत्वानि दिवः पृथिव्याः पृथिव्याः परि पर्योजः ओज उद्भृतम् उद्भृतम् वनस्पतिभ्यः उद्भृतमित्युदभृतम् वनस्पतिभ्यः परि वनस्पतिभ्यैरिव वनस्पतिभ्यः पर्याभृतम् आभृतपुंसः आवृतमित्यावृतम् सह इति सह परि वरि गोभिः गोभिरावृतम् आवृतमिन्द्रस्य इन्द्रस्य वज्रम् वज्रगम् हविष हविषारथम् रथम् यज यजेति इन्द्रस्य वज्रः वज्रो मरुताम् मरुतामनीकम् अनेकम् मित्रस्य मित्रस्य गर्भः गर्भो वरुणस्य वरुणस्य सेमाम् इमां नः मोहं हव्यदातिम् जुषाणः हव्यदातिमिति हव्यादातिम् जुषाणो देव देवरथ रथप्रति प्रतिहव्या हव्यागृभाय गृभायेति गृभाय उपश्वासय श्वासय पृथिवीम् पृथिवीमुत तद्याम् याम् पुरुत्रा पुरुत्राते पुरुत्रेति पुरोत्रा ते मनुताम् अनुताम् विष्ठितम् विष्ठितम् जगत् ्यष्ठितमिति दन्दुभे सजूः सजोरिन्द्रेण सजोरिति इन्द्रेण देवैः देवैर्दूरात् दूराद्दवीयः दवीयो अपसेध सेधशत्रून् शत्रोणिति शत्रून् आक्रन्दय क्रन्दयबलम् बलमोजः ओजो न आधा आह धानिः मिष्टनिः स्तनिः दुरिता दुरिता बाधमानः दुरितेति दुः इता बाधमान इति इतः इत इन्द्रस्य मुष्टिः मुष्टिरसि असि वीडयस्व वीडयस्वेति वीडयस्व आमोः अमोरज रजप्रत्यावर्तय प्रत्यावर्तयेमाः प्रत्यावर्तयेति प्रतियावर्तय इमाः केतुमत् केतुमद्दुन्दुभिः केतुमदिति हेतुमत् दुन्दुभिर्वावदीति वावदीतीति बावदीति समश्ववर्णाः अश्ववर्णाश्चरन्ति अश्ववर्णादित्यश्रावर्णाः चरन्दिनः नो नरः नरोऽस्माकम् अस्माकमिन्द्र इन्द्ररथिनः रथिनो जयन्तो जयन्तीति जयन्तो यदक्रन्दः अक्रन्दः प्रथमम् जायमानः जायमान उद्यन, उद्यन् उद्यन्त्समुद्राद् उद्यन्नित्युदयन् समुद्रादुत उद्यन उतवाह आपुरीषाद् पुरीषादिपुरीषाद् शेनस्य पक्षा पक्षा हरिणस्य ऋणस्य बाहू बाहू उपस्तुत्यम् बाहू बाहू उपस्तुत्यम् महि उपस्तुत्यमित्युपास्तुत्यम् महि जातम् जातम् ते ये अर्वन् अर्वन् इत्यर्वन् यमेन दत्तम् दत्तम् त्रितः त्रितयेनम् एनमायुनत् आयुनगिन्द्रः इन्द्र एणम् एनम् प्रथमः प्रथमो अधि अध्यतिष्ठत् अतिष्ठदित्यतिष्ठत् दिष्थ अन्धर्वो अस्य अस्य रशनाम् रशनामगृभणात् अगृभणात्सूरात् सूरादश्वम् अश्वम् वसवः वसवोनिः निरतष्ट अतष्टे यमः यमो असि अस्यादित्यः आदित्यो अर्वन् अर्वन्नसि असि त्रितः त्रितो गुह्येन गुह्येन व्रतेन असि सोमेन सोमेन समया समया विवृत्तः विवृत्त आहुः विवृत्त इति विवृत्तः आहुस्ते ते त्रीणि त्रीणि दिवि दिवि बन्धनानि बन्धनानीति बन्धनानि त्रीणि ते आहुः आहुर्दिवि युविबन्धनानि बन्धनानि त्रीणि त्रीण्यप्सु अप्सु त्रीणि अप्सित्यपौसु त्रीण्यन्तः अन्तः समुद्रे समुद्र इति समुद्रे उदेव युवमे मे वरुणः वरुणच्छन्सि छन्स्यर्वन् अर्वन् यत्र यत्रा ते आहुः आहुः परमम् परमम् जनित्रम् जनित्रमिति जनित्रम् युवादे तेवाजिन् आजिन्नवमार्जनानि अवमार्जनानीमा मार्जनानीत्यवमार्जनानि इमाशफानाम् शफानाकम् सनितुः सनितुर्निधानाः निधानेति निधानाः अत्रा ते ते भद्राः भद्रारशनाः रशना अवश्यम् अवश्यमृतस्य याः या अभिरक्षन्ति गोपाः अभिरक्षन्तेत्यभिरक्षन्ति गोपाः आत्मानन्ते ते मनसा मनसाराद आरादजानाम् अजानामवः अवो दिवा पतयन्तम् पतयन्तम् पतङ्गम् पतङ्गमिति पतङ्गम् शिरो अपश्यम् अपश्यम् पथिभिः पथिभिः सुगेभिः पथिभिरिति पथिभिः सुगेभिररेणुभिः सुगेभिरिति सुगेभिः अरेणुभिर्जेहमानम् अरेणुभिरित्य रेणुभिः जेहमानम् पतत्रि पतत्रीति पतत्रि तत्रा ते ते रूपम् रूपमुत्तमम् उत्तममपश्यम् उत्तममित्युदोत्तमम् अपश्यम् जिगीषमानम् जिगीषमानमिषः इष आपदे पदे गोः गोरिति गोः यदा ते ते मर्तः मर्थो अणु अनुभोगम् भोगमानट् आनडात् आदित् यद्ग्रसिष्ठः प्रसिष्ठ ओषधीः ओषधीरजीगः अजीगरित्यजीगः अणुत्वा त्वा त्वा त्वा त्वा त्वा त्वा अनु अनुमर्यः वर्यो अर्वन् अर्वन्ननु अननुगावः दावो नु अनुभगः भगः कलीनाम् अनुव्रातासह व्रातासस्तव तव सख्यम् सख्यमीयुः ये ननु अनुदेवाः देवाममिरे अमिरे वीर्यम् वीर्यन्ते इति ते हिरण्यशृङ्गो यः अयो अस्य अस्य पादमनोजवाः मनोजभा अवरः इति मनः जवाः अवर इन्द्रः देवा इति इरस्य अस्य हविरद्यम् अविरद्यमायन् अविरद्यमिति हविः अद्यम् आयमिरः यो अर्वन्तम् अर्वन्तम् प्रथमः प्रथमो अध्यतिष्ठत् अध्यतिष्ठदित्यधि अतिष्ठत् ईर्मान्दासः सिलिकमध्यमासः ईर्मान्दास इति ईर्मा अन्तासः शिलिकमध्यमासः सम् शिलिकमध्यमास इति शिलिकामध्यमासः सर्वम् शूरणासः दिव्यासो अद्याह अत्याहंसा इव इव श्रेणिशः श्रेणिशो यतन्ते श्रेणिश यतन्ते यत् यदाक्षिषुः आक्षिषुर्दिव्यम् दिव्यमज्मम् अज्ममश्वाः अश्वादित्यश्वाः तव शरीरम् शरीरम् अर्वन्तव तव चित्तम् चित्तम् पात इव इमधीमान् धजीमानिजीमान् अर्वशृङ्गाणि शृङ्गाणि विष्ठिता विष्ठिता पुरुत्रा विष्ठितेदिवीस्थिताः पुरुत्रारण्येषु पुरुत्रेति पुरोत्रा अरण्येषु जर्भुराणा जर्भुराणा चरन्ति चरन्तेति चरन्ते उपप्र प्रागात् राच्छसनम् श्वसनम् वाजी वाज्यर्वाः अर्वादेवद्रीचाः एकद्रीचा मनसा एकद्रीचेति देवाद्रीचः मनसादि ध्यानः दीध्यान इति दीध्यानः अजः पुरः पुरो नीयते नीयते नाभिः नाभिरस्य अस्यानु अनुपश्चात् पश्चात्कवयः कवयो यन्ति इन्दि रेभाः रेभा, रेभा इति रेभाः उपप्रागात् अगापरमम् परमञ्यत् यत्सधस्थम् सधस्थमर्वान् सधस्थमिति सधास्थम् अर्वागुम् अच्छ अच्छापितरम् पितरम् मातरम मातरम् चेति च अद्य देवान् देवाञ्जुष्टदमः जुष्टतमो हि जुष्टतम इति जुष्टागमः जुष्ट गम्याः गम्या अथ अथा आशा आस्ते शास्ते दाशुषे दाशुषे वार्याणि वार्याणीतिवार्याणि मानः गो मित्रः मित्रो वरुणः वरुणो अर्यमा अर्यमायोः आयुरिन्द्रः इन्द्ररुभुक्षाः रुभुक्षामरुतः बुभोक्षा इत्युभोक्षाः अरुदः परिपरिक्ष्यन् भर ख्यन्निति ख्यन् यद्वाजिनः वाजिनो देवजातस्य देवजातस्य सप्तेः देवजातस्य इति देवजातस्य सप्तेः प्रवक्ष्यामः प्रवक्ष्यामो विदथे वीर्याणि वीर्याणीति वीर्याणि निर्णिजा रेक्नसा निर्णिजेति निहीनिजा रेक्नसा प्रावृतस्य प्रावृतस्य रातिम् प्रातिम् नृगीताम् लृगीताम् मुखतः मुखतो नयन्ति नयन्तीति नयन्ति सुप्रागजः सुप्रागति सोप्रा अजोमें यत् मेम्यद्विश्वरूपः विश्वरूप इन्द्रापोष्णोः विश्वरूप इति विश्वारूपः इन्द्रापोष्णोः प्रियम् इन्द्रापोष्णोरितीन्द्रापोष्णोः प्रियमपि अत्येति एति पाथः पाथ इति पुरो अश्वेन अश्वेन वाजिना वादिना पूष्णः पूष्णो भागः भागो नीयते नीयरे विश्वदेव्यः विश्वदेव्य इति विश्वादेव्यः अभिप्रियम् यत् अभिप्रियमित्यभिप्रियम् यत्प्रोडाशम् रोडाशमर्वता अर्वता त्वष्टा त्वष्टेम् एनकम् सौश्रवसाय सौश्रवसाय जिन्वति जिन्वतीति जिन्वति यद्धविष्यम् अविष्यमृदुषः ऋतुषोदेवयानम् ऋतुषैत्वितोषः एवयानन्द्रिः एवयानति देवायानम् तिर्मानुषाः मानुषाः परि पर्यश्वम् अश्वम् नयन्ति नयन्तीति प्रथमः प्रथमो भागः भागयेति एत देवेभ्यः देवेभ्यः प्रतिवेदयन् प्रतिवेदयन्नजः प्रतिवेदयन्निति प्रतिवेदयन् अज इत्यजः होताद्धर्युः अद्धर्युरावयाः आवया अग्निमिन्धः आवया इत्यावयाः अग्निमिन्धो ग्रावग्राभः अग्निमिन्ध इत्यग्निम्मिन्धः ग्रावग्राभ उत ग्रावग्राभ इति शग्गस्ताः सुविप्रः सुविप्र विप्रः तेन यज्ञेन यज्ञेन स्वरङ्कृतेन स्वरङ्कृतेन सृष्टेन स्वरङ्कृतेनेतिसु अरङ्कृतेन सृष्टेन वक्षणाः सृष्टेनेतिसु इष्टेन वक्षणाः आप्रणध्वम् प्रणध्वमिति प्रणध्वम् यूपव्रस्का उत यूपव्रस्का इति यूपाव्रस्काः उत ये ये यूपवाहाः यूपवाहाश्चशालम् इति यूपावाहाः चशालङ्गे ये अश्वूपाय अश्वपाय द्रक्षति अश्वूपाये तिश्वरूपाय रक्षतीति रक्षति ये चार्वते अर्वते पचनम् पचनकम् सम्भरन्ति सम्भरन्त्युतो सम्भरन्तीति सम्भरन्ति उतो तेषाम् उतो इत्युतो तेषामभिगोवर्तिः अभिगोवृत्त्यर्नः अभिगोवर्तिरित्यभिगूर्तिः न हिन्वतो उपप्रा प्राघात् रघात् सुमत् सुमन्मे सुमदिति सुमद् मेधायि रथायि मन्म मन्म देवानाम् देवानामाशाः आशा उप उपवीतपृष्ठः वीतपृष्ठ इति वीतापृष्ठः अन्वेनम् एनम् विप्राः विप्रा ऋषयः ऋषया मदन्ति मदन्ति देवानाम् पुष्टे पुष्टे चक्रमा सुबन्धुम् सुबन्धुमिति यद्वाजिनः वाजिनो दाम दामसन्दानम् सन्धानमर्वतः सन्धानमिति सन्दानम् अर्वतो या या शीर्षण्या शीर्षण्या रशना रशना स्य अस्य प्रभृतम् प्रभृतमास्ये प्रभृतमिति प्राभृतम् आस्ये तृणम् तृणम् सर्वाः सर्वाता तातेः ते अपि अपि देवेषु देवेष्वस्तु अस्वित्यस्तु अश्वस्य क्रविशः क्रविशो मक्षिका आशयत् यद्वा वा स्वरौ स्वरौ स्वधिकौ स्वधितौ रिक्तम् लिप्तमस्ति अस्तीत्यस्ति यद्धस्तयोः हस्तयोः श्रमितुः शमितुर्यत् यन्नखेषु नखेषु सर्वाः सर्वाता तातेः ते अपि अपि देवेषु देवेष्वस्तु अस्तु इत्यस्तु उदरस्यापवाति उदरस्या अपवातियः अपवातीत्यपावाति य आमस्य क्रविशः क्रविशो गन्धः गन्धोऽस्ति अस्तीत्यस्ति सुकृता तत् सुकृतेति सुकृता कच्छमितारः शमितारः कृण्वन्तु कृण्वन्तु उत उत मेधम् मेधकम् श्रुतपाकम् श्रतपाकम् पचन्तु श्रतपाकमिति श्रुतापाकम् पचन्तीति पचन्तु कृत्ते ते गात्रात् गात्रादर्ग्निना अर्पिना पच्यमानात् पच्यमानादभि अभिशूलम् शूलम् निहतस्य निहतस्यावधावति निहतस्येति निहतस्य अवधावतीत्यवधावति मा तत् तद्भूम्याम् भूम्यामा आश्रिषत् श्रिषन्मा मा तृणेषु तृणेषु देवेभ्यः देवेभ्यस्तत् तद्वषद्भ्यः वृषद्भ्यो रातम् ओषभ्य इत्युषतेभ्यः रातमस्तु परिपश्यन्ति परिपश्यन्ति पक्वम् परिपश्यन्तीति परिपश्यन्ति पक्वम् ये यईमाहुः आहुः सुरभिः हरेति इतीति ये च चार्वतः अल्पतो मागुंसभिक्षाम् मागुंसभिक्षामुपासते मागुंसभिक्षामिति मागुंसा भिक्षाम् उपासत उतो उपासत इत्युपासते उतो देशानाम् उतो इत्युतो तेषामभिगोवृत्तिः अभिगोवूर्तिर्मः अभिगोवृत्तिरित्यभिगूर्तिः न इन्वतो इन्वत्विति इन्वतो यन्नीक्षणम् नीक्षणम् माघस्पजन्याः माघस्पचन्या उखायाः उखायाया या पात्राणि पात्राणि यूष्णः यूष्णः आसेचनानि आसेचनानीत्यासेचनानि ऊष्मण्यापिधानाः अपिधाना चरूणाम् अभिधानेत्यपिधानाः चरूणामङ्काः अङ्काः सूनाः सूनाः परि परिघोषन्ति घोषन्त्यश्वम् अश्वमित्यश्वम् निक्रमणम् निषदनम् निक्रमणमिति निक्रमणम् निषदनम् विवर्तनम् निषदनमिति निसदनम् विवर्तन विवर्तनमिति विवर्तनम् यच्च च यच्च च पपौ पपौ यत् यच्च जघाम् घासिम् जघास जघासर्वाः सर्वातातेः ते अपि अपि देवेषु देवेष्वस्तु अस्त्वित्यस्तु मा त्वाग्निः अग्निर्ध्वनैत् ध्वनैर्धूमगन्धिः धूमगन्धिर्मा धूमगन्धिरिति मोखा मुखा भ्राजन्ती भ्राजन्त्यभि अभिरिक्तरिक्तजग्ः जग्निरिति जग्निः इष्टम् वीतम् अभिगोहृतम् वषट्कृतम् अभिगोहृतमित्यभिगोर्तम् वषट्कृतम् तम् वषट्कृतमिति वषटम् देवासः देवासः प्रति कृतिगृह्णन्ति गृभ्रन्त्यश्वम् अश्वमित्यश्वम् यदश्वाय अश्वाय वासः वासोपसृणन्ति उपस्कृनन्त्यधिवासम् उपसृणन्तीत्युपासृणन्ति अधीवासम् या अधीवासमित्यधिवासम् या हिरण्यानि सन्दानमर्वन्तम् सन्दानमिति सन्दानम् अर्वन्तम् पड्बीषम् पड्बीषम् प्रिया प्रिया देवेषु आयामयन्ति यामयन्तीति यामयन्ति यर्थेः हे सादे सादे महसा महसा शूकृतस्य शूकृतस्य पार्ष्णिया शूकृतस्येति सूकृतस्य पार्ष्णिया वा कषया कषया वा रुतोद रुतोदेति रुतोद इवता ता हविषः हविषो अध्वरेषु अध्वरेषु सर्वाः सर्वाता पाते हे ब्रह्मणा ब्रह्मणा सूदयामि सूदयामीति सूदयामि चतुस्त्रिंशद्वाजिनः चतुस्त्रिंशदि त्रिंशद् वाजिनो देवबन्धोः देवबन्धोर्मङ्क्रीः देवबन्धोरिति देवाबन्धोः देवा मङ्क्रीरश्वस्य अश्वस्य स्वधितिः स्वधितिः सम् स्वधितिरिति स्वाधितिः समेति एतीत्येति रक्षिद्रा गात्राः गात्राविजुना वजिना कृणोत कृणोतपरुष्परुः परुष्परुरनुघृष्य परुष्परुरिति परुः परुः अनुघृष्यायि अनुघृष्येत्यनुघृष्य विषश्च शस्तेऽति शस्त एकस्पष्टुः पष्परश्वस्य अश्वस्य विशस्ता विषस्ता द्वा विषस्तेदिशस्ता द्वाजन्तारा जन्तारा भवतः भवतस्तथा तथर्तुः ऋतुरि ऋतुः गातेः हे गात्राणाम् आत्राणाम् ऋतुथा ऋतुथा शृणोमि ताता तातापिण्डानाम् ताते दिता पिण्डानाम् प्रशोमिग्नौ अग्नावित्यग्नौ मा त्वातपत् तपत्प्रियः प्रिय आत्मा आत्माभियन्तम् अभियन्तम् मा अभियन्तमित्यभियन्तम् मा स्वधितिः स्वधितिस्तवः स्वधितिरिति तनु वा आतिष्ठिपत् तिष्ठिपत्तेः तैलिके मातेः ते गृध्नोः गृध्वो विशस्ता अविशस्तातिहाय अविशस्तेर्यभिशस्ता अतिहाय छिद्रा अतिहायेत्यतिहाय छिद्रा गात्राणि गात्राण्यसिना असिनामिथु मिथूकः वा उवेतत् एतन्द्रियसे प्रियसेन नरिष्यसि ऋष्यसिवान् देवागुत् इदेषिषि पथिभिः पथिभिः सुगेभिः पथिभिरिति पथिभिः सुगेभिरिति सूगेभिः हरी ते हरि इति है ते युञ्जा पृषती पृषती अभूताम् पृषती इति पृषति अभूतामुप उपास्थात् अस्थाद्वाजी वाजीधुरि धुरिरासभस्य रासभस्येतिरासभस्य सुगभ्यम्नः सुगव्यमिति सोगव्यम् नो वाजी आजीः स्वश्रियम् स्वश्ववियम् पुपुंसः स्वश्रियमिति सु अश्ववियम् पुपुंसः पुत्रान् पुत्रागुम् उत उत विश्वापुषम् विश्वापुषगम् विश्वापुषमिति विश्वापुषम् रयिमिति रयिम् अनाघास्त्वन्नः अनाघास्त्वमित्यनाघाः त्वम् नो अदितिः अदितिः कृणोत् कृणोत क्षत्रम् दुक्रू नो अश्वः अश्वोवनताम् वनतागुणम् हविष्मान् हविष्मानिति हविष्मान् ओ चतुर्थकाण्डे षष्ठः प्रश्नः समाप्तः